गीता षष्ठोऽध्यायः श्रीराम उवाच भगवन्नत्र मे चित्रम् महदेदत्प्रजायते शुद्धस्फटिकसङ्काशः त्रिनेत्रः चन्द्रशेखरः मूर्तस्त्वम् तु आकृतिः पुरुषरूपदृक् अम्पया सहितोऽत्रैव रमसे प्रमतैः सह त्वम् कतम् पञ्चभूतादि जगदेतच्चराचरम् तद्ब्रूहि गिरिजाकान्तमयिते अनुग्रहो यदि श्रीभगवानुवाच सादुपृष्टम् महाभाग दुर्ज्ञेयम् अमरैरपि तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत पारं यास्यसि अनायासा येन संसारनी हदे दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश समुद्रा सरितो देवा राक्षसा ऋषयस्तथा दृश्यन्ते यानि चान्यानि तावराणि चराणि च गन्धर्वाः प्रमता नागाः मद्विभूतयः पुरा ब्रह्मादयो देवाः द्रष्टुकामा ममाकृतिम् मन्दरम् प्रयेयुः सर्वे मम प्रियतरम् गिरिम् तुत्वा प्राञ्जलयो देवा माम् तदा पुरतः स्थिताः तान् दृष्ट्वा अधमया देवा पीलाकुलितचेतसः तेषाम् अपकृतम् ज्ञानम् ब्रह्मादीनाम् दिवौकसा अतते ते अपकृतज्ञाना माम् आहुः को भवानिति अत अब्रुवम् अहम् देवान् अहमेव पुरातनः आसम् प्रथममेवाहम् वर्तामि च सुरेश्वराः भविष्यामि च लोकेऽस्मिन् मत्तो नान्योऽस्ति कश्चन व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किञ्चित्सुरेश्वराः नित्योऽनित्योऽहम् अनगो ब्रह्मणां ब्रह्मणस्पतिः दक्षिणाञ्च उदञ्चोऽहम् प्राञ्च प्रत्यम् च एव च विदिशो दिशश्च अहम् सुरेश्वराः तावित्री चापिगायत्री गायत्री त्रीपुमानपुमानपि दृष्टुब्जगति अनुष्टुब् च पङ्क्तिश्चन्दस्त्रयीमयः सत्योऽहं सर्वगः शान्तः त्रेताग्निर्गौर्यहं गुरुः गौर्यहं गह्वरं चाहं द्यौरघं जगतां द्विपुः ज्येष्ठः सर्वसुरश्रेष्ठो वरिष्टो अहमपां पतिः आर्योऽहं भगवानिशः तेजोऽहम् च आदिरव्यहम् ऋग्वेदोऽहम् यजुर्वेदः सामवेदो अहमात्मभू अथर्वणश्च मन्त्रोऽहम् तथा अंगिरसो अङ्गिरसो वरः इतिहासपुराणानि कल्पोऽहम् कल्पवान् अहम् नाराशंसी च घाताहम् विद्या उपनिषदोऽस्म्यहम् लोकाः सूत्राणि चैवाहम् अनुव्याख्यानमेव च व्याख्यानानि परा विद्या इष्टम् उतम् अत आहुतिः दत्ता दत्तमयम् लोकः परलोकोऽहम् अक्षरः क्षरः सर्वाणि भूतानि दान्तिः शान्तिहं कगः गुह्योऽहं सर्ववेदेषु आरण्योऽहम् अजोऽप्यहम् पुष्करं च पवित्रम् च मद्यम् च अहमधः पाहश्चाहम् तथा चान्तः पुरस्तादहम् अव्ययः ज्योतिश्चाहम् तमश्चाहम् तन्मात्राणि इन्द्रियाण्यहम् बुद्धिश्चाहम् अहङ्कारो विषयाण्यहमेव हि ब्रह्मा विष्णुर् महेशोऽहम् उमास्कन्दो विनायकः इन्द्रो अग्निश्चयमश्चाहम् निरृतिर्वरुणोऽनिलः कुबेरोऽहम् तता ईशानो भूर्भुवस्वः महर्जनः तपः सत्यं च पृथिवी च आपः तेजो अनिलोऽप्यहम् आकाशोऽहम् रविः सोमो नक्षत्राणि ग्रहाः तथा प्राणः कालः तथा मृत्युः अमृतं भूतमपि अहम् भव्यम् भविष्यत्कृत्स्नं च विश्वम् सर्वात्मकोऽप्यहम् ओमादौ च तथा मध्ये पूर्भुवः स्वस्ततैव च ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा अशितं पायितं चाहम् कृतं च अकृतमप्यहम् परं चैवापरं चाहम् अहं सर्वपरायणः अहं जगद्धितं दिव्यं। अक्षरं सूक्ष्ममव्ययम् प्राजापत्यम् पवित्रम् च सौम्यम् अग्राह्यमग्रियम् अहमेव उपसंहर्ता महाग्रासौजसाम् निधिः कृतियो देवतात्वेन प्राणत्वेन प्रतिष्ठितः शिरश्च उत्तरतो यस्य पादो दक्षिणतस्तता यश्च सर्वोत्तरः साक्षात् ओङ्कारोऽहं त्रिमात्रकः ऊर्ध्वम् च उन्नामये यस्माद् अतश्च अपनयाम्यहम् तस्मादोङ्कारयेवाहम् एको नित्यः सनातनः रुचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि प्रणामये ब्राह्मणेभ्यः तेनाहं प्रणवो मतः स्नेहो यता मांसपिण्डम् व्याप्नोति व्यापयत्यपि सर्वान् लोकान् अहम् तद्वत् सर्वव्यापी ततोऽस्म्यहम् ब्रह्मा हरिश्च भगवान् आद्यन्तम् नोपलब्धवान् ततो अन्ये च सुरा यस्मात् गर्भजन्मजरा मृत्युः संसारभवसागरात् तारयामि यतो भक्तम् तस्मात् तारोऽहमीरितः चतुर्विदेषु देहेषु जीवत्वेन वसाम्यहम् सूक्ष्मो भूत्वा च हृद्देशे यत्तत्सूक्ष्मम् प्रकीर्तितः महातमसि मग्नेभ्यो यत् यत्प्रकाशये विद्युद्वत् अतुलं रूपं, तस्मात् वैद्युतमस्म्यहम् एक एव यतो लोकान् विसृजामि सृजामि च पिवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः न द्वितीयो यतस्तस्ते तुरीयं ब्रह्म यत्स्वयं स्वयम् पूतान्यात्मनि संकृत्य च एको रुद्रो वसाम्यहम् सर्वान् लोकान् यदीशेहम् ईशिनीभिश्च शक्तिभिः ईशानमस्य जगतः सदृशं चक्षुरीश्वरम् ईशानश्चास्मि जगता सर्वेषामपि सर्वदा ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् सर्वभावान्निरीक्षेऽहम् आत्मज्ञानम् निरीक्षये योगम् च गमये तस्मात् भगवान् महतो मतः अजश्रम यच्च गृह्णामि विसृजामि सृजामि च सर्वान् लोकान् वासयामि तेनाहं वै महेश्वरः महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते सर्वान् भावान् परित्यज्य महादेवश्च सोऽस्म्यहम् एषोऽस्मि देवः प्रदिशो सर्वाः पूर्वो हि जातोऽस्म्यहमेव गर्भे अहं हि जातश्च जनिष्यमाणः प्रत्यग्जनस्तिष्ठति सर्वतोमुखः विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् संबाहुभ्यां दमति सम्पदत्रयी या वा भूमि जनयन् देवैकः बालाग्रमात्रम् हृदयस्य मध्ये विश्वं देवं जातवेदम् वरेण्यम् माम् आत्मस्तं ये नुपश्यन्ति धीराः तेषाम् शान्तिः शाश्वतीनेतरेषाम् अहं योनिमदिष्टा विचैको मयेदम् पूर्णम् पञ्चविधम् च सर्वम् मामीशानम् पुरुषम् देवमीढ्यम् विदित्वा निचाये माम् शान्तिमत्यन्तमेति प्राणेष्वन्तर्मनसो लिङ्गमाहुः अस्मिन् क्रोधो या च तृष्णाक्षमा कृष्णाम् कृत्वा हेतुजालस्य मूलम् उद्याचित्तम् तापयित्वा मयीह एवम् ये माम् जायमाना भजन्ते तेषाम् शान्तिः शाश्वतीनेतरेषाम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्म माम् ज्ञात्वा न बिभेति कुतश्चन श्रुत्वेति देवामद्वाक्यम् कैवल्यज्ञानमुत्तमम् जपन्तो मम नामानि मम ज्ञानपरायणाः सर्वे ते स्वस्वदेहान्ते मत्सायुज्यम् गताः पुरा ततो अग्रे परिदृश्यन्ते पदार्ता मद्विभूतयः मय्येव सकलम् जातम् मयि सर्वम् प्रतिष्ठितम् मयि सर्वं लयं याति तद्ब्रह्म अद्वयम् अस्म्यहम् अनोरणियान अहमेव तद्वत् महानहम् विश्वमहम् विशुद्धः पुरातनोहं हम पुरुषोऽहमीशो गिरण्मयोऽहम् शिवरूपमस्मि अपाणिपादोऽहम् अचिन्त्यशक्तिः पश्याम्य चक्षुः अहम् विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् वेदैरशेषैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति न भूमिरापो न च वह्निरस्ति न चानिलोमेऽस्ति न मेनबश्च एवं विदित्वा परमात्मरूपम् गुहाशयम् निष्कलम् अद्वितीयम् समस्तसाक्षिम् सदसद्विहीनं प्रयाति परमात्मरूपम् एवं मां तद्वतो वेत्ति यस्तु महामते। स एव नान्यो लोकेषु कैवल्यफलम् अश्नुते इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघव संवाद विभूतिम ष्टध्याय